हरिओं श्री जगदि नम अथ देवी भागवत महापुराणे तृतीय स्कंधे एक तदाण्य वजो दुष्ट जानकी भयीवरा वेपम स्थिरं मनोवाचा मुचह से किम सदवाक्यं तम अथ स्मर मोहि है नाहं वैश्वणी किन्तु जनकस्य कुलोद्भव गच्छ लङ्काम् दशास्य त्वम् राम त्वाम् वै हनिष्यति मत्कृते मननम् तत्र भविष्यति न संशयः इत्युक्त्वा पर्णशालायाम् गता सर्वन्निसन्निधौ गच्छ गच्छेति वदति रावणम् लोकरावणम् स्वस्य कृत्वा निजम् रूपम् बलाजग्राहताम्बालाम् है राम रामेति क्रन्दन्ति लक्ष्मणेति मुहमुहो मो। गृहीत्वा निर्गतः पापो रथम् आरोप्य सत्वरः गच्छन्नरुणपुत्रेण मार्गे रुद्धो जटायुषा सङ्ग्रामो बन्धारोद्र त्रयोत्तस्रवनान्तरे हत्वा तं ताम् गृहीत्वा च गतोऽसो राक्षसाधिपः लङ्कायाम् कुन्दति तात् गुरुरीव दुरात्मना अशोकवनिकायाम् सा स्थापिता राक्षसी यता स्ववृत्तान्नेव चलिता सामदानादिभिः किल रामोऽपि तम् मृगम् हत्वा जगामादाय निर्वृतः आयन्तम् लक्ष्मणम् वीक्ष्य किम् कृतम् ते अनुजासनम् समम् एकाकिनीम् प्रियाम् हित्वा किमर्थम् तम् सुशासनं तु पापस्य राघवीदि स्वमित्री तद्ब्रवीद्वाक्यं सीतावाग्णपीडितः प्रभोत्राहं साहासमायात कालयोग न संशयः स रातो पर्णशालायां गत्वा वीक्षाति दुःखिदौ जानक्यन्वेषणे यत्नम् उभकर्तुम् समुद्यतौ मार्गमाणौ तु सम्प्राप्तो यत्र स पतितः जतायु प्राणशेष पति तेनोक्तम् रावणे नाद्य हृतासु जनकात्मजा मया निरुद्ध पापात्ना पातितोऽहम् मृदे पुनः इत्युक्त्वासु गतप्राण संस्कृतो राघवेण वै कृतोर्ध्व देहिकम् राम लक्ष्मणो निर्गतो ततः कमन्धम् घातयित्वासौ चापाच्चा मोचयत् प्रभु वचनात् तस्य हरिणा सख्यं चक्रे स राघवे हत्वा च वालिनं राजमुत्तमम् सुग्रीवाय ददरो रामः साख्याय कार्यतः तत्रैव वाचिकान्मासान्तस्थो लक्ष्मणसंयुतः चिन्तयन् जान किञ्चित् ते दश लक्ष्मणं प्राह राम तु सीताविरपीडितः स्वमित्रैकैकैसुता जाता पूर्णमनोरथा न प्राप्ता जनकी नूनं नाहं जीवामितां विना नागमिष्याम्ययोध्यायां कृते जनकनन्दिनीं कथं राज्यं वने मतस्तातो हृताप्रिया पीडयन्मां स दुष्टात्मा दैवोग्रह किं करिष्यति दुर्धेयं भवितव्यं हि प्राणिनां भर्तानुजय अवयोकागति भविष्यति सुदुःखिता प्राप् जन्म भव मनोर्वंशे राजपुत्रौ भव कि वनेति दुःखभोक्तारो जातो पूर्वकुतेन च सक्तामय तमपि भोगन्तु मया सह विनिर्गतः दैवयोगा च सौमित्रे भुङ्क्ष दुःखं दुरत्ययं न कोऽप्यस्मत्कुले पूर्वं मत्समो दुःखभाङ्गनरः अकिञ्चनो न भूतो न भविष्यति किम करोम सौमिते मग्नोस्मे दुखसागरे न चास्ती तरणोपाय मेखि नीत न बलम वीर सम सहचारकोपेस्कृत नुज गज क्षण समोपम वने वासस्तु सम्प्राप्त को वेदविधिनिर्मितं बालभावाच्य वैद्यै चलिता च वयो सः निेन दुष्टेन श्यामा दुःखतरां दशां लङ्केश्वस्य गृहे श्यामः कथं दुःखे भविष्यति पतिव्रता सुशीला च मयि प्रीतियुता वृशं न च लक्ष्मणवैद्यैः सा तस्य अवश्यका भवेत् स्वै ऋणीवरारोह कथञ्च जनकात्मज सुजे प्राणान्यत्वे मैथिली भरतानुज न रावणस्य वशगः भवेदिति सुनिश्चितम् भुता चेज्जानकी वीरप्राणा त्यक्षाम्य संशयम् भुता चेदसितापाङ्गी किं मे देहे न लक्ष्मण एवम् विलेपमानम् तम् रामम् कमललोचनम् लक्ष्मण प्रहर्मात्मासां तृतय गिरा धैर्यम् कुरु महाबाहु त्यक्त्वा कातरम् तां हे आनेष्यामि वैदेहिम् हत्वा तम् रक्षमम् तुल्या धैर्याद्भवन्ति ते धीरा अल्पदीयस्तु निमग्ना कष्टे भवन्ति विभवेऽपि संयोगो विप्रयोग च दैवधीनो शोकस्तु कीदृशस्तत्र देहेनात्मने न क्वचित् राज्याद्यया वने वासो वैदेह्याहरणं यथा तथा काले समीचीन संयोगोऽपि भविष्यति प्राप्तव्यं सुखदुःखानां भोगान् निर्वर्तनं क्वचित् नान्यथा जाने जाने तस्मात् शोकं द्वय त्यजाधुना वानराः सन्ति भूयां सुगमिष्यन्ति चतुर्दिशम् शुद्धिं जनकनन्दिन्या आनयिष्यन्ति ते किल ज्ञात्वा मार्गस्थितिम् तत्र गत्वा कृत्वा पराक्रमं। अत्रा तम् पापकर्माणम् आनयिष्यामि मैथिलिम् ससैन्यम् भरतं वापि समाहूय स अनुजम् अनिष्यामो वयं किं शोचसि उथाग्रज रघुणैकरथेनैव जिता सर्वादिश तद्वंशजे कथं शोकम् कर्तुम् अरहसि राघव एकोऽहं सकुलाञ्जेतुम् समर्थोऽस्मि सुरासुरान् किं पुनः स सा यो वै रावणम् कुलपांसनम् मनोऽतिकातरम् यस्य दुःखसुख दुःख समुद्भवे न शोकसागरे मग्नो न सुखे स्यात्कदाचन इन्द्रेण विसनं प्राप्तं पुरा वै रघुनन्दन स्थापितो देवै सर्वै मगवतः पदे स्थितपङ्कज मध्ये च बहुवर्षगणानपि अज्ञातवासम् भगवा भीत त्यक्त्वा निजम् पदम् पुनः प्राप्तम् निजम् काले विपरिवर्तिते नौ च पति भूमौ शापादी इन्द्राणीम् कामया नस्तु ब्रह्माण्डामवमन्य च अगच्छी कोपात् सञ्जात सर्पदे हो महीपतिः तस्माक्षो को न कर्तव्यो व्यसने राघवे उद्यमे चित्तमासाय स्थातव्यम् वै विपचिता सर्वज्ञोऽसि महाभागसमर्थोऽसि जगत्पथे किं प्राकृतै वाक्यर्थम् शोकमात्मनि वासोवाच इति लक्षणलक्ष्मणवाक्येन बोधितो रघुनन्दन त्यक्त्वा शोकम् तथार्थम् बभूव विगतज्वरः इति श्रीमद्देवी भगवते महापुराणे तादृशतादृशम् संहितायाम् तृतीयस्कन्धे लक्ष्मण कृतराम् नामै नाम एको न त्रिंशोऽध्याय श्रीजगदम्बिकायार्पणमस्तु